णाय नमः ॐ महानन्दाय नमः ॐ मनोतेताय नमः ॐ मूलाज्ञानविनाशनाय नमः ॐ महानन्दभावाय नमः ॐ मायाभासविवर्जिताय नमः ॐ महाग्रासाय नमः ॐ महत्सेव्याय नमः महामोहविनाशनाय नमः ॐ महर्षिप्रज्ञाय नमः ॐ मोक्षात्मने नमः ॐ मूलचैतन्याय नमः ॐ मोक्षामोक्षस्वरूपाय नमः ॐ मिथ्यानन्दप्रकाशकाय नमः ॐ महावाक्यलक्ष्याय नमः ॐ महावाक्यार्थरूपिणे नमः ॐ महत्पदाय नमः ॐ महामूर्तये नमः च्छब्दविवर्जिताय नमः ॐ मूलस्वरूपाय नमः ॐ मोचकैकस्वरूपिणे नमः ॐ महाशब्दात्मकाय नमः ॐ मायाहेनाय नमः ॐ मनोहराय नमः ॐ मायाधिष्ठानाय नमः ॐ मायिने नमः ॐ मायावशङ्कराय नमः ॐ मायानुताय नमः ॐ मध्यगताय नमः ॐ मूर्खचित्तसुदुर्लभाय नमः ॐ मायाय वैश्याय नमः ॐ महच्चित्तसुलभाय नमः ॐ माधवाय नमः ॐ माया तत्कार्यसाक्षिणे नमः ॐ मात्सर्यादेववर्जिताय नमः ॐ मध्यस्थाय नमः ॐ मन्त्रसाध्याय नमः ॐ महाप्रलयसाक्षिणे नमः ॐ माणिक्यवत्स्वयं ज्योतिषे नमः मनःसाक्षिणे नमः ॐ महासिद्धये नमः ॐ मात्सर्यसाक्षिणे नमः ॐ मात्सर्यविहेनाय नमः ॐ मोहहेनाय नमः मदविवर्जिताय नमः ॐ मोहसाक्षिणे नमः ॐ महामायाविनय नमः ॐ महत्साक्षिणे नमः ॐ मृगतृष्णासदृशजगदष्ठि जगदधिष्ठानाय नमः ॐ मलरहिताय नमः ॐ मायाप्रतिबिम्बितसाक्षिणे नमः ॐ मानहेनाय नमः ॐ याजमान्यविहेनाय नमः ॐ यज्ञरूपाय नमः ॐ यजमानाय नमः ॐ योगरूपाय नमः ॐ योगविधिस्वरूपाय नमः ॐ यजनयाजनरूपाय नमः ॐ यजनयाजनसाक्षिणे नमः ॐ रागहेनाय नमः ॐ रागसाक्षिणे नमः ॐ रम्याय नमः ॐ रूपप्रसाक्षिणे नमः ॐ रज्जुसर्पजगत्साक्षिणे नमः ॐ रससाक्षिणे नमः ॐ रसाय नमः ॐ लक्षालक्ष्यस्वरूपाय नमः ॐ लक्षालक्ष्यविवर्जिताय नमः ॐ लाभवृद्धेविवर्जिताय नमः ॐ लक्ष्याय नमः ॐ लक्ष्यलक्ष्यसाक्षिणे नमः ॐ लोभसाक्षिणे नमः ॐ लक्ष्णत्रयविज्ञानाय नमः ॐ लय हेनाय नमः ॐ वृत्तिशून्यसुखात्मने नमः ॐ वयोवस्थाविवर्जिताय नमः ॐ विश्वातीताय नमः ॐ विश्वसाक्षिणे नमः ॐ वर्णाश्रमविवर्जिताय नमः विष्णवे नमः ॐ वरेण्याय नमः ॐ विज्ञानाय नमः ॐ विरजसे नमः ॐ विश्वतोमुखाय नमः ॐ वासुदेवाय नमः ॐ विमुक्ताय नमः ॐ विदित्ताविदितात्पराय नमः ॐ विकल्पाविकल्पसाक्षिणे नमः ॐ विकल्पसाक्षिणे नमः ॐ विज्ञानविश्वज्ञानाय सच्चिदानन्दाय नमः ॐ विद्वज्जेयाय नमः ॐ वृत्तिशून्याय नमः ॐ वृत्तिवेद्याय नमः ॐ विषयानन्दवर्जिताय नमः ॐ वृत्तिकल्पनाधिष्ठानाय नमः ॐ वाक्साक्षिणे नमः ॐ वेदरूपिणे नमः हिनय नमः ॐ वेदान्तवेद्याय नमः ॐ वेदैकस्वरूपिणे नमः